सर्वेषां स्वागतम् नमो नमः भगिनी भवती प्रार्थनया आरम्भं करोति वा आं बेनि एकनिमिषम् पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन घ्रतिताम् पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनी अम्ब त्वामनुसन्ददामि भगवद्गीते भवद्वेषिणी नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्र नेत्र येन द्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रपन्नपारिजाताय तोत्रवेत्रैकपानये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो गावो दोक्ता गोपालनन्दनः पातो वत्स सुधेर्भोक्ता दुग्धम् गीतामृतम् वसुदेवसुतं देवं, देवम् कंसचानूरमदनम् देवकी परमानन्दम् कृष्णम् वन्दे जगद्गुरुम् शान्ताकारम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्कम् लक्ष्मीकान्तम् कमलनयनम् योहिभर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् धन्यवादे उत्तमं भगिनी धन्यवादाः आ... भारतमहोदय तेषा तस्य कृते समस्या अस्ति इति मन्ये अस्तु पश्यामः अस्तु आरम्भं कुर्मः अद्यदिने अस्माकम् अभ्यासः प्रथमतः तु अस्माकं सप्तमी हे विषयकः अभ्यासः अनन्तरं किञ्चित् सम्भाषणस्य विषये अद्य नवरात्रपर्वणः अपि तत् भिन्नप्रकारेण बह वयं सम्भाषणविषयकः अपि अभ्यासं कुर्मः आरम्भे गतपक्षे न गतसप्ताहे गतपक्षे वयं एतत् कृतवन्तः सप्तमीविभक्तिविषये तत् एकवारं तस्य पुनरावर्तनं कृत्वा वीणाभगिनी अस्ति वा नमो नमः नमो नमः भगिनी नमो नमः क्षम्यतां अस्तु अस्तु पश्यन्तु सर्वे यत् वयं कृतवन्तः एतत् अस्ति स्क्रीन् दृश्यते स्क्रीन् दृश्य दृश्यते अधुना पश्यन्तु तत्र अहं राम इत्युक्ते अकारान्तपुल्लिङ्गी शब्दः मुनि इत्युक्ते प्रातिपदिक मुनि इत्युक्ते इकारान्तपुल्लिङ्गी शब्दः गुरुप्रातिपदिक भवति चेत् उकारान्तपुल्लिङ्गिशब्दः मातृ इति ऋकारान्तशब्दः माला इति आकारान्त आकारान्तस्त्रीलिङ्गि मति इति भवति इकारान्तस्त्रीलिङ्गी नदी इति भवति ईकारान्तसिलिङ्गे एतावत्पर्यन्तम् वयम् कृतवन्तः तत् अत्र अहम् तालिकाम् कृतवती तालिका दृश्यते अत्र तथा किमस्ति राम अकारान्तपुल्लिङ्गशब्दे यदा भवेत् चेत् रामे रामयोः रामेषु इत्युक्ते सप्तम्यन्तम् पदानि कानि सप्तमी एकवचनान्तपदम् रामे सप्तमी द्विवचनान्तपदम् रामयोः अनन्तरं सप्तमी बहुवचनान्तपदं रामेषु एवं सर्वमस्ति अस्ति एकवारं तस्य पठनं कुर्मः अस्माभिः मनसि एतानि रूपाणि सप्तम्यन्तपदानि प्रथमा द्वितीय श्रवताम् एकवचन द्विवचन बहुवचनान्तपदानि तत्र कथं भवति पश्यामः अधुना वीणा भगिनी भवती पठति वा ताडिका हा भगिनि सप्तमी विभक्ति सप्तमी विभक्ति मुनिः मुनि शब्दः रामतः आरम्भं करोतु राम रंदम रंदम। आ, रामे रामयोः रामेषु मुन् मुनिः मुनि शब, शब्दः मुनाव ोः मुनिषु hmm. गुरुशब्दः गुरौ गुर्वेः गुर्वोः गुरुषु hmm. मातृपदः मातरि मात्रोः मातृषु hmm. मालाशब्दः मालायां मालयोः मालासु माला hmm. आ... मतिशब्दः मतौ एवं मत्यां मत्योः मतिषु नदी शब्दः नद्यां नद्योः नदीषु अस्तु हा अधुना यदा अहं वदामि तत्र गिरिः इति शब्दः अस्ति गिरिः इत्युक्ते प्रथमा गिरिः इति अस्ति गिरिः तत् रूपाणि कानि सप्तम्यन्तपदानि कानि भवती वदति वा हा प्रयत्नं करिष्यामि भगिनि मति एव भवति वा मतिः हा न पश्यन्तु गिरि इत्युक्ते किं गिरि इत्युक्ते किं गिरि इत्युक् इत्युक्ते हिल् हा तद् गिरिजा इति वदामः खलु पार्वत्याः अधुना तत् नवरात्रोत्सवः पार्वत्याः एकम् एक एकं एक एक नाम तत्र गिरिजा इति गिरि तत्र शैतपुत्री इति वयं वदामः हिमालयस्य कन्या हा तद्गिरिः पर्वतं हा इत्युक्ते नपुस्तकलिङ्गम्यतां पुल्लिङ्गिशब्दः गिरिः इत्युक्ते पर्वतं हा तद्गिरिः यदा पुल्लिङ्गिशब्दः गिरिः इति इकारान्तपुल्लिङ्गिशब्दः तत् कीदृशम् अस्ति तत् रूपं गिरि वा श्रीलिङ्गी भवेत् खलु भगिनी सत्यं योग्यं मुनि एव इकारान्त इकारान्तपुल्लिङ्ग एवं खलुलिङ्ग गिरिजा इत्युक्ते गिरेः पति गिरेः पुत्री इत्युक्ते पर्वतम् गिरि अधुना वदतु सप्तम्यन्तरूपाणि गिरौ गिर्योः गिरिषु यथा मुनी, तथा गिरि पुनः एकवारं वदतु गिरो गिरौ सोरि गिरौ गिरौ गिर्योः गिरिषु सत्यम् अधुना भवती एव वदतु तत्र इषु इषु इति शब्द इषुः इति वदामि प्रथम इषुः इषुः उकारान्त इषुः उकारान्तपुल्लिङ्गवास्तविङ्ग अत्र नास्ति वा उदाहरणं नास्ति वा उपान्तपुल्लिङ्गशु हा इषु इषौसोः वा इषो ईषोः भवती उक्तवती एकवारं पश्यन्तु गुरु तत्र किम् अभवत् गुरुवोः रेफ कुत्र गच्छति उपरि गच्छति तत्र अतः गुर्वोः किमर्थं तत्र रेफ अस्ति रौ रेफ अस्ति अनन्तरम् उकार अस्ति हा इत्युक्ते वोः वो एतस्य योजना इषु अपगच्छति नुदार तत्र वोः आगच्छति तेन किं भवति इष्वोः इषु गुरुः इष्वोः इष्वोः अनन्तरम् बहुवचनरूपं भवति इ इषुषु इषुषु सत्यम् अधुना अम्बाशब्दस्य विषये वदति वा अम्बा हा भगिनि अम्बायाम् अम्बयोः अम्बासु अम्बा अम्बासु बहु सम्यक् अधुना तत्र धाता धातृधातृशब्दस्य विषये वदति वा धातृ धातरि धात्रोः धा धातृषु हा तत्र धात्रु धातृ इति अस्ति धातृ अधुना अग्निः अग्निः अग्निः अग्निः इत्युक्ते पुल्लिङ्ग वा भगिनि अग्निः इत्युक्ते पुल्लिङ्गः इकारान्त पुल्लिङ्गशब्द एव वा न इकारान्त अन्तिमः स्वरः इकारान्त अग्नि यथा मुनि मुनि हा अस्तु भगिनि हा मुनि भगिनि अस्तु अग्नौ अग्नयोः अग्निषु अग्नौ अग्न्योः अग्न्योः अग्निषु अधुना यज्ञ यज्ञः यज्ञः यज्ञः इत्युक्ते, इत्युक्ते। पुलिङ्गति एव वा अस्ति खलु पुलिङ्ग अस्तु भगिनि हा राम अग्ने हा हा अस्तु भगिनि अग्ने अग्नयोः अग्नेषु अग्नौ अग्न्योः अग्नेषु यज्ञः यज्ञः शब्दः न अग्नि यज्ञः अस्तु सारी भगिनि हा यज्ञे यज्ञयोः यज्ञेषु यज्ञे यज्ञयोः यज्ञेषु हा केचन जनाः तत् यज्ञ इति वदति ते यज्ञ इति ते वदन्ति तत् तदपि सम्यक् अस्ति इत्युक्ते तत्र ज्ञ इति संयुक्त अक्षर अस्ति भगिनि हा अधुना कालः कालः कथम् अस्ति कालः अपि रामशब्द एव भवति सत्यम् कथं शक्तवन्त काले कालयोः कालेषु अधुना बाहु बाहु आ, बाहु गुरु इव भगिनि उकारान्तु बाहु बाह् बाहौ बाहौ वा बाह ेहे न तत्र बाह्वो अत्र भगिनि गुर्वोः किमर्थमस्ति तत्र गुरुमूलतः तत्र रेफ् अस्ति मूलतः अस्ति अनन्तरम् उकार अस्ति हा उकार किं भवति वोः इति भवति अनन्तरं वोः उपरि रेफ् आगच्छति अतः गुर्वोः इति रूपं परन्तु बाहुशब्दे रेफ् नास्ति बाह उकार उकारस्य वोः अतः अस्माकं रूपं बाह्वोः एवं भवति तत्र रेफ् मूलतः शब्दे नास्ति एव अतः बाह्वो एवं रूपं भवति अस्तु, अस्तु अस्तु अत्र एकवारं धन्यवादः भगिनी धन्यवाद धन्यवाद सर्वेषां कृते वदामि हा एते सर्वे अजन्तशब्दाः अजन्त इत्युक्ते किम् अजन्त इत्युक्ते अच् अन्त हा अजन्तशब्दाः अच् स्क्रीन् दृश्यते खलु सर्वेषाम् दृश्यते भगिनी अच् अन्त अजन्त तेषाम् अन्ते स्वरः स्वराः सन्ति अतः अजन्तशब्दाः एते सर्वे अजन्तशब्दाः अधुना प्रथमवारं वयं राम इति दृष्टवन्त राम इति प्रातिपदिकं तत्र किमस्ति मकार अस्ति अन्तिमतः अनन्तरम् अकार अस्ति अतः वयं वदामः अकारान्तशब्दः अनन्तरं वयं मुनि इति दृष्टवन्तः मुनिः तत्र मुनि प्रातिपदिकं तत्र किमस्ति नकार अनन्तरम् इकार अतः वयं वदामः मुनि इति इकारान्तशब्द गुरु तत्र किं भवति गुरु हा तत्र किं भवति गुरु तत्र रेफ अनन्तरम् उकार उकारान्तशब्द तथैव इतोपि तत्र किं भवति मति इति वदामः चेत् मतिशब्दस्य कृते किं भवति म त इ इत्युक्ते तत्र मति वदामः चेत् तकार अनन्तरम् इकार वयं सर्वे जानीमः मति, मती बुद्धि गती अनन्तरं धृति एवं सर्वं स्त्रीलिङ्गे शब्दाः hmm? एते सर्वे स्त्रीलिङ्गे शब्दाः हा, हा। तत् इकार इति अन्तिमः वर्णः इकारान्तशब्द अनन्तरं पितृविषये का गति पिता तत्र मूलतः प्रातिपदिकमस्ति पितृ इति ऋकार अस्ति तकार अस्ति अनन्तरं ऋकारः अस्ति अतः वयं वदामः ऋकारान्तप्रातिपदिकं माला आकारान्तप्रातिपदिकम् इत्युक्ते तत्र अन्तिमवर्णः ईकार वा अकार वा आकार वा ऋकार वा दीर्घ ई नदी नदी अस्यां तत्र का स्थिति नदी इति वदामः चेत् तत्र नद दकार अनन्तरम् ई इति दीर्घः अस्ति अतः वयं वदामः ईकारान्तप्रातिपदिकम् ईकारान्तप्रातिपदिकम् ईकारान्तशब्दः एवमस्ति हा, हा अधुना अहं यदि वदाम मति मतिशब्दस्य कृते वयं सर्वे जानीमः मति कुत्र आगच्छति स्त्रीलिङ्गि इकारान्तशब्दः मति इति यथामतिशब्दस्य रूपाणि तथैव गतिः ते तथैव भवति बुद्धिः तथैव भवति मति गति बुद्धिः एतेषां सर्वेषां कृते रूपाणि समानानि एव एतत् अस्माभिः स्मर्तव्यम् अस्तु स्पष्टमस्ति वा सर्वेषां स्पष्टमस्ति वा अस्तु पुनः एकवारम् अत्र गच्छामः एकवारं पुनः एकवारं पुनः एकवारं एक एक सर्वेषां कृते पठनं भवेत् अनन्तरं वयं पुस्तकं प्रति गच्छामः भरतमहोदय भवान् अधुना पठितुं शक्नोति वा आं भगिनि हा राम रामसप्तमे विभक्ति राम रामे रामयोः रामेषु मुनि चन मुनो द्विवचन मुनयोः बहुवचन मुनिषु सक्षम गुरुवचन गुरो द्विवचन गुर्वोः बहुवचन गुरुषु गुरुषु मातृ एकवचन मातरि द्विवचन मात्रोः बहुवचन् मातृषु hmm. माला एकवचन मालायां hmm. मालयोः मालासु hmm. मती एकवचन मतौ एव मत्यां hmm. hmm. द्विवचन् मत्योः बहुवचनमतीषु नदी एकवचन् नद्यां नद्योः नदीषु सत्यं योग्यं धन्यवादः धन्य धन्यवाद अधुना जयन्तीभगिनी जयन्तीभगिनी नास्ति वा जयन्तीभगिनी अत्र अस्तु अस्तु जयन्ति भगिनी वयं सर्वे जानीमः नवरात्रिपर्वणः तत्र नवरात्रोत्सवे नवदुर्गाणां महत्वं वयं सर्वे जानीमः अधुना तेषां नाम्नि नामानि वयम् आवयामः पश्यन्तु प्रथमं शैलपुत्री शैलपुत्री रूपाणि वदतु सप्तम्यक्तपदं शैलपुत्र शैलपु पुत्री शैलपुत्रौ शैल शैलपुत्र्योः शैलपुत्रीषु शैलपुत्र्याम् इति खलु शैलपुत्र्या नदी एव चलति शैलपुत्र्यां शैलपुत्र्योः शैलपुत्रीषु उत्तमं द्वितीयं ब्रह्मचारिणी ब्रह्मचारप्रिया ब्रह्मचारिण्यां ब्रह्मचारिण्योः ब्रह्मचारिणीषु उत्तमम् तृतीयमस्ति चन्द्रघण्टा चन्द्रघटन्द्रा चन्द्रघण्टायां चन्द्रघण्टयोः चन्द्रघण्टी घण्टासु चतुर्थमस्ति कुष्माण्डा कुष्माण्डा ऊष्माण्डायाम् उष्माण्डयोः ऊष्माण्डेषु कूष्माण्डासु तत् कु कु कूष्माण्डा कूष्माण्ड् सारी कूष्माण्डायां कूष्माण्डयोः कूष्माण्डे कूष्माण्डासु कूष्माण्डासु अनन्तरं पञ्चमं स्कन्दमाता स्कन्दमातायां स्कन्दमातयोः स्कन्दमातासु स्कन्दमागि प्रातिपदिकं किमस्ति मातृ माता आं मेनि सारि सारिन्द स्कन्दमात्री स्कन्दमात्रयोः स्कन्दमातृषु तत्र मात्रयोः नास्ति मात्रोः स्कन्दमात्रोः कुत्रचित् तत्र य अस्ति कुत्रचित् नासि, कुत्रचित् वो अस्ति अतः तत् एवम् अहम् अत्र स्थापितवती अनन्तरम् अहं चिन्तितवती सर्वेषां रूपाणाम् अस्माकं उत्तमप्रकारेण पुनरावर्तनं भवेत् अतः अहं तत्र नाम्नानि आम् अस्तु पुनः एकवारं वदति वा स्कन्दमाता आं बेनि स्कन्दमात्रोः स्कन्दमातृषु षष्ठम अस्ति कात्यायनी कात्यायनी इति कात्याय कात्यायन्यां कात्याय कात्यायन्योः कात्यायनीषु उत्तमं सप्तमम् अस्ति कालरात्रि इकारात् कालरात्रि कालरात्रौ अथवा कालरात्यां कालरात्र्योः कालरात्रिषु उत्तमम् अनन्तरम् अष्टममस्ति महागौरी महागौरी महागौर्यां महागौर्योः महागौरीषु नवमम् अद्यदिनस्य सिद्धिदात्री सिद्धिदात्र्यां सिद्धिदात्र्योः सिद्धिदाद्रीषु दातव्य एवं सर्वे उत्तमस्ति हा धन्यवादः धन्यवादः अत्र पुस्तकं प्रति गच्छामः एकवारं पुस्तके किं दत्तमस्ति सर्वे अत्र अकारान्तपुल्लिङ्ग एवम् अकारान्तपुल्लिङ्गाः इकारान्तपुल्लिङ्ग उकारान्त तत् स्वयं दत्तमस्ति तत् कुर्मः अस्तु हा ओगोस्ट् भवान् आरम्भं करोति भगिनी hmm. यथोदाहरणं पुरयता अभ्यासः hmm. अकारान्तपूर्लिङ्गिङ्गब्दाः hmm. ग्रन्थाः एकवचनं ग्रन् ग्रन्थे द्विवचनं ग्रन्थयोः बहुवचनं hmm. ग्रन्थेषु देहः वचनं देहे विवचनं देहयोः बहुवचनं देहेषु योग्यं जनः एकवचनं जने विवचनं जनयोः बहवचनम् ु यज्ञः यज्ञे यज्ञोः याज्ञेषु कालः काले गालयोः कालेषु उत्तम अग्रिमे अपि करोतु इकारान्त इकारान्त पुल्लिङ्गशाब्दाः गुरुः गुरौ न इकारान्त अग्निः इकारान्त पुल्लिङ्गे उकारान्त सोरि उकारान्त पुल्लिङ्गशाब्दाः गुरुः गुरौ गुरुः महोदय अग्निः इति अस्ति खलु अग्निः अग्नौ अग्निः अस्तु करन्तु अग्निः अग्नौ अग्न्योः अग्निषु hmm. मुनिः मुन्यौ hmm. मुन्योः मुन्यो मुनिषु hmm. मुन्नौ न्योः मुनिषु अग्रिमे राशिः mm. रा, राशौ mm. राशि राश्योः mm. रा, राशिषु oh, योग्यम् अग्रिमे गिरिः गिरौ गिर्योः गिरिषु अग्रिमे उकारान्तपूर्णि उकारान्तपूर्णिङ्गशब्दाः गुरुः गुरौ गुरुवोः गुरुषु असुः असौ अस् अस्वोः oho a asso shugo h ishoho ishao isshobogo e e isho sto e bahugo bahaw hum bah bahbogo bahushugo बह्वोः वकार बह्वो बाहु, बाहु, बाहु। योग्यम् अग्रिमे रुकारान्तपुल्लिङ्गकारान्तपुल्लिङ्गशब्दाः कर्ता करता, कर्तरि कर्त्रोः कर्तृषु पिता पितरि पित्रोः पितृषु योद्धा यो योधरी योधरोह, योद्धरोः योधृषु योधृषु योद्ध योधृषु यो दृषु योदृष यथा hmm? पितृषु कर्तृषु तत् कर्तृषु कर्तृ कर्तृषु तथैव पितृषु तत्र टेफ ah. अपि अस्ति ऋकार अपि अस्ति एवं खलु ah, अधुना अधुना कर्तृ भेदः अत्र लिखित्वा अहं दर्शिष्यामि अहं किं वक्तुम् इच्छामि प्रातिपदिकं कर्तृ इति अस्ति तत्र रेफः अस्ति कर्तृ इति प्रातिपदिकमस्ति तत्र रेफः अस्ति अतः तत्र कर्तृषु इति भवति अस्तु एवं खलु अवस्तु महोदय कर्तृषु इति भवति परन्तु यदा पितृ इति प्रातिपदिकं पितृ इति प्रातिपदिकं तत्र ऋकारान्त एव तत्र रेफ नास्ति अतः तत्र पितृषु इति भवति अधुना तत्र योद्धा इति अस्ति योद्धृ इति प्रातिपदिकं योद्धृ यो योद्धृ इति प्रातिकम् अतः यो ध्रू योद्धृषु एवं भवति रेफ् कदा आगच्छति तत्र कर्तृ मूलपदे एव रेफ् अस्ति स्पष्टमस्ति वा स्पृष्टमस्ति भगिनि हा तत्र यो योद्धॄषु योद्धॄषु इति भवति हा वस्तुतः तत्र रुवर्णान्त तत्र रु इति वदामः तत्र वार्तिकमस्य रुवर्णान्त तत्र रुवर्ण तत्र रेव अन्तर्भूत एव अस्ति तत्र परन्तु अत्र कर्तृ इति वदामः चेत् इतोपि तत्र रुकार, उपरि रेफ् परन्तु पितृ इति वदामः चेत् तत उपरि रेफ् नास्ति पितृ ऋकार एव अस्ति अतः तत्र कर्तृषु पितृषु योद्धृषु धातृषु पश्यामः अग्रे अत्र अधुना हा योद्धा धाता विषये वदतु महोदय दा आ धातरित्रोः धातृषु धातृषु धातृषु धातृषु अस्तु धन्यवाद महोदय उत्तमः भगिनी धन्यवादः अग्रिमे भारतमहोदय करोति वा आकारान्तस्त्रीलिङ्गशब्दः आं हा। भगिनि आकारान्तस्त्रीलिङ्गशब्दाः सेना सेनायां सेनयोः सेनासु सेना गीता गीतायां गीतयोः गीतासु अम्बा अम्बायाम् अम्बयोः अम्बासु श्रुतिः इकारान्त एकनिमिषिङ्गिशब्दा श्रुतिः श्रुत्यां श्रुत्योः श्रुतिषु गतिः गत्यां गत्योः गतिषु ईकारान् स्त्रीलिङ्गशब्दाः नदी नद्यां नद्योः नदीषु आवर् आवर्तिनि आवर्तिनिवर् आवर्त्या आवर्त्याम् अवर्त्या आवर्त्यां पश्यन्तु आवर् आवर्तिनी आवर्तिनी इत्युक्ते तत्र आवर्तन वारं वारं तत् आवर्तिनी आवर्ति आवर्तिनि नौ तत्र इकारान्त द्याम् इति भवति य आम् यां तथैव आवर्तिवर्तिन्याम् आवर्तिन्याम् आवर्तिन्योः आवर्ति करेक्ट् आवर्तिन्योः आवर्तिनीषु आवर्तिनीषु यथा नदी शब्द नदी शब्दसम्पूर्णतया स्वीकृत्य तत्र शु इति प्रत्य आगच्छति तथैव आवर्तिनी आवर्तिनीषु <laughs> एवं भवति अस्तु एतावत् पर्याप्तम् अनन्तरम् अग्रिमे वर्गे वयम् उकारान्तस्त्रीलिङ्गिशब्दाः एवं सर्वं कुर्मः अधुना तत्र अवर्तिनेषु का भगिनी पृच्छति इदानीम् अवर्तिनी हौ टु रै रैटिङ्ग् बहुवचन भगिनी तद् का का पृच्छति गीताभगिनी वा न गीताञ्जलि गीताञ्जलि गीता भगिनी गीताञ्जलि भगिनी अच्छा हा पश्यन्तु भगिनी अत्र आवर्तिनी इति शब्दात् आवर् एकनिमिषं लिखित्वा आ वी अत्र किमपि भवेत् अस्माकं विषयस्य अनुशंगेन तत्र न योग इतिकारान्तशब्दः इका, यथा वयं वदामः नद्यां नद्यां तत्र वयं किं कुर्मः न तु इ अपगच्छति तत्र नद्याम् इति आगाम् तथैव अत्र किं भवति आ वर्ती तथैव न अपि तथैव तिष्ठेत् अनन्तर इ अपगच्छति याम् आवर्तिन्याम् इति एकवचनान्तरूपम् आवर्तिन्यां द्वितीय द्विवचनान्तरूपं भवति नद्योः द योः अत्र किं भवति आवर् टी तथैव तिष्ठेत् नकार तस्य स्थाने किं भवति इकार अपगच्छति आव नद् नद्योः आवर्तिन्योः नकार अनन्तरं योः आवर्तिन्योः अधुना नदीषु आवर्तनीष्टु अत्र एवं भवति यहा नदीषु तथा अवर्ति शब्द तथा भव आवर्तिशु नद्याद नदी आवर्तिवर्वर्तिवर्तिशु स्पिनी हाँ भगनी धन्यवादः न जानामि असुः न एकनिमिषं वदामि किञ्चित् तत्र तत्र युद्धप्रसङ्गे तस्य योजना परन्तु अहमेकवारं पश्यामि एकवारं किञ्चित् अवलोकनं करोमि अत्र हा तत्र श्वास इति अस्ति महोदय श्वासः असुः श्वास Okay, तत् केचन जनाः तत् प्राणवायुः इति वदन्ति खलु तत् असुः प्राणवायुः इति धन्यवादः hmm? yeah. अधुना तत्र किञ्चित् भिन्नप्रकारेण कर्तुम् इच्छामि अधुना पश्यन्तु अस्माकं सम्भाषणं वर्ग अनन्तरं तत्र सम्भाषणेन वयं गीतामा सम्भाषणं गीतामाध्यमेन वयं सम्भाषणं कुर्मः एवं सर्वं प्रचलति अधुना अस्माकं पुरतः एकं सम्भाषणमस्ति परन्तु तत् पूर्णतया सम्भाषणं पूर्णतया दत्तं नास् न वर्तते अत्र हा तत्र मञ्जुषा अस्ति इत्युक्ते मञ्जुषायां शब्दाः सन्ति तेषाम् उपयोगेन वयम् अत्र पश्यामः फिलिङ्ग ब्लैंक इति अस्ति कथं वयं कर्तुं शक्नुमः न अद्यदिने एकः अभ्यासः इति वर्तते अधुना भवती गीताञ्जलि भगिनी भवती एव वदतु आरम्भं करोति वा हाँ हाँ। आ, हा भगिनि हा सुखता सखी किं जानासि अद्यक उत्सवः अस्ति नम्रता अद्य दीपावलिः उत्सवः हा अस्ति अद्य दीपावलिः अस्ति तत्र वन् इति लिखितमस्ति न तत् एकः एव तत्र शब्दः अद्य दीपावलिः अस्ति इति ओके भगिनि अद्य दीपावलिः okay, अस्ति तदा तु अद्य वयं तदा तु अद्य वयम् वस्त्राणि धरिष्यामः नवन नवनानि वस्त्राणि धरिष्यामः उत्तमं नवीन नव नवीनानि वस्त्राणि धरिष्यामः पश्यन्तु अत्र किं भवति वस्त्राणि धरिष्यामः कुर्मः गच्छामः वयं हा नवीनानि वस्त्राणि वस्त्राणि इति पदस्य वस्त्रम् इति नपुंसकलिङ्गे पदम् वस्त्रं वस्त्रे वस्त्राणि तथैव तस्य विशेषणरूपेण नवीन इति शब्द नवीनम् इति शब्द तत् नवीन इति शब्दः अपि तथैव प्रचलति नवीनानि वस्त्राणि यदा एकवचनं भवेत् तत् नवीनं वस्त्रं नवीनानि नवीनानि वस्त्राणि अग्रिमे नम्रता मम माता अपि नवीनां धरिष्यति शाटिकां धरिष्यति शाटिकां शाटिकां धारयिष्यति धारयिष्यति अतः भविष्यत्काले सा वदति अत्र अत्रापि पश्यतु अत्रा नवीना शाटिका कां धारयति शाटिकां शाटिकां कीदृशी नवीनां नवीनां शाटिकां धारय धारयिष्यति अग्रिमे मम अहम् अहं पिन्द्रासह विपणीं विपणीं क्रीडकानि मिष्टान् किति विपणानि मिष्टान्नं च क्रेष्यामि गत्वा भगिनी योग्यं योग्यं सम्यक् पितरा सह पित्रा सह पितृशब्दस्य पित्रा इति तृतीया सः यत्र यत्र आगच्छति तत्र तृतीया पित्रा सह विपणिम् गत्वा क्रीडनकानि मिष्टान्नम् क्रेष्यामि भविष्यत्काले लुट्लका अग्रिमे त्वं त्वं मिष्टान्नं मिष्टान्नं क्रीत्वा किं करिष्यसि मिष्टान्नम् मीन्स् वाट् भगिनी ट्वीट् मधुरं मधुरम् ओके ओके अधुना तु वयं सर्वे कुर्मः खलु प्रतिदिने नवरात्रोत्सव तद् मिष्टान्नम् इत्युक्ते मधुरं मधुरम् ओके वयं मिष्टान्नं परिवाराय ददास्यामः वितरिष्यामः नै नै विस्फोटकपदार्थान् च दास्यामः परिवाराय विस्फोटकपदार्थान् भगिनी पश्यन्तु <laughs> परिवाराय इत्युक्ते चतुर्थी सर्वेषां कृते एव वदामि यत्र यत्र दानमस्ति तत्र अस्ति चतुर्थी दानार्थे चतुर्थी दानम हाँ ताया तर दानमस्तूत तरीय चतुर्थी अधुना अग्रिम चीक् तिवार ददती तथा बांधवेभ्य बांधवेभ्य चतुर्थी बहुवचना पिवाराय तथैव बान्धवेभ्यः इत्युक्ते तत्र कथं तत्र नेबर्स् ये ये जनाः परिचितजनाः तेषां कृते सर्वेषां कृते वि विल् डिस्ट्रिब्यूट् इति भावः वयं मिष्टान्नं परिवाराय बान्धवेभ्यः च दास्यामः भगिनी हा। मित, मित्रेभ्यः किञ्चित् न दास्यसि वयं मित्रेषु अपि मिष्टान्नं वितरिष्यामः वितरिष्यामः इत्युक्ते डिस्ट्रिब्यूट् इति वितरिष्यामः वितरणं करिष्यामः वितरिष्यामः उत्तमम् अग्रिमे रात्रौ वयं सर्वे बालकाः मित्राणि च मिलित्वा चालयिष्यामः विष्को विस्फोटकपदार्थान् चलिष्या चालयिष्यामः विस्फोटकपदार्थान् चालयिष्यामः हा। अस्तु योग्यं योग्यं योग्यम् अहं तु विष्टोक विश् विस्फोटकपदार्थानां करिष्यामि लक्ष्मीपूजनं करिष्यामि विस्फोटकपदार्थानां लक्ष्मीपूजनं भवति वा ऐट् आन् अहं तु न पत्र पदार्थानां हा भगिनि रामाणां पदार्थानां बहिष्कारं करिष्यामि भगिनी बहिष्कारं करिष्यामि सुखदा न इच्छति विस्फोटकपदार्था बहिष्कारं करिष्यति करिष्यामि इति सा वदति अग्रिमे वदति तत्र यदा तेषाम् धूम्रेण ध्वनिना च प्रदूषणं प्रसरति धूम्रेण तृतीया ध्वनिना तृतिया, प्रदूषणं प्रसरति समीचीनं क कथितम् अहं रात्रौ करिष्यामि परं चलिष्यामि लक्ष्मीपूजनं तु करिष्यामि परं विस्फोटकपदार्थानां न चलिष्यामि चालयिष्यामि चालयिष्यामि सम्यक् अस्ति उत्तमम् अस्ति भगिनि अस्तु धन्यवादः अस्तु धन्यवादः अधुना अग्रे सरीमः पश्यन्तु अत्र यथा अहम् उक्तवती संस्कृतेन सम्भाषणं तत् संस्कृतेन सम्भाषणं तत्र केचन जनाः सन्ति अस्माकं संस्कृतज्ञाः वा तत्र कार्यकर्तारः सन्ति ते वदन्ति तेषां समीपे तादृशाः अनुभवाः सन्ति इत्युक्ते यदा कोऽपि तत्र संस्कृतेन भाषणं करोति तदा कानिचित् कार्याणि तत्र सुखेन साधितानि अभवन् इति तेषां बहु बहु बहुत्र ते जनाः वदन्ति तत्र सुलभता वर्तते तेषां कार्येषु वा अन्यस्मिन् स्थले अपि यदा वयं संस्तुतेन वदामः चेत् हा एतादृशाणि अनुभवाः एतादृशाः अनुभवाः तेषां समीपे अस्ति अधुना अत्र एकः अनुभवः अत्र तस्य पठनं वयं कुर्मः किम् अभवत् इति कथामाध्यमेन पश्यन्तु अत्र संस्कृतेन भाषणं सर्वकार्यसाधनम् इति कथायाः शीर्षकमस्ति संस्कृतेन सम्भाषणं सं सर्वकार्यसाधनं पश्यामः किं भवति चेत् आरम्भं कुर्मः अधुना पठनस्य वीणाभगिनी आरम्भं करोति वा आल, हा भगिनि अत्र लेखकस्य नाम वा अल् अलम्यलाभः अलभ्यलाभः इत्युक्ते लभ्य लभ्य इत्युक्ते यत् लभ लभते तत् लभ्य हा अलभ्य मत्लब् अलभ्य इत्युक्ते तत्र नय इति नय समासस्य भावः तत्र न लभ्य अलभ्य लभ्य तस्य अपि नाम यत् न लभ्य तस्यापि लाभः भवति इति विषयः कथं केन तत् संस्कृतेन वा संस्कृतेन भाषणं कृत्वा अलभ्य अलभ्यलाभः भवति वा इति पश्यामः कथायां किं दत्तमस्ति तत् पठामः गतवर्षे समये धूमशटकया धूमशटकयानेन उत्तरभारतीयानां पुण्यक्षेत्राणां दर्शनार्थम् अहं गतवती आसम् आसं अस्तु अस्माभिः सह कर्णाटकीय अपि काचित् आसीत। सा तमिळुभाषां न जानाति अहम् कन्नडभाषां न जानामि किन्तु आवाम् उभे अपि संस्कृतं जानीवः स्म अतः आवयोः मैत्री प्रवृद्धा किं दत्तमस्ति स्वशब्दैः वदति वा किमस्ति गतवर्षे एकं तमिळु तमिळू तमिलभाषाम् एकं सहृदय कथं कथं पश्यन्तु गतवर्षे तामिलभाषा यस्याः मातृभाषा इति एका भगिनी वा एका महिला वा एका स्त्री स्त्री भूमशतकयानेन उत्तरभारतीयानां पुण्यक्षेत्राणां दर्शनार्थं सः गतवती सः कृतम् कुटुम्बसमे तव कुटुम्बेन सह कुटुम्बेन सह गतवती हा अत्र पश्यन्तु भगिनी गतवती आसमिति अस्ति हा अहं चिन्तयामि बहुवारम् अहम् उक्तवती तत् गतवती कृतवती ज्ञातवती ये सर्वे तवतु तो प्रतयांताव तो प्रत्या ते न क्रियापदा कर्तरी भूतकालवाची धा साधितशेषणा कू धा वस्तु तत् वयं वदामः तत् अहम् आह उक्तवती अहं गतवती अहं न ज्ञातवती एवं सर्वं क्रियापदेन क्रियापदरूपेण वयं प्रयुञ्जामः परन्तु ते पदानि। हा अतः सा अत्र समय अहं गतवती आसम् आसमिति बहु बहुवचन वा आसमिति भूतकाल भूतकाल उत्तमुष एक तरह अस्थ स्थ सी अस धा लट्ल तथा उत्तम पुषे कि यहाँ की लट्लकारे वाला त्र भूतका अतः व्याकरण दृष्टिया प्रयोग बहुत सी त अहम गषण तत्व सौलभ्य परंतु व्याकरण दृष्टिया पशा चेहवती क्रियापदम अतः अहम ग आसम अहम कृतवती आसम सा गीत सह ग्य प्रकार अतः त्रसम की दत्मस्टुब अस्तु अस्तु अग्रे किम् अस्माभिः सह किं वदति तेन सह, सह कर्णाटकीय अपि काचित् आसीत् एका महिला अपि कर्नाटके कर्नाटकीय अपि भगिनी सा तु ललना स्त्री अस्ति तया सह कर्णाटकीया काचित् आसीत् इत्युक्ते एका एका महिला एका महिला मातृभाषा तमिल् इति द्वितीया महिला तस्याः मातृभाषा कन्नड् इति सा अधुना सा तमिळ् भाषा न जानीवः जानीतः अहं कन्नडभाषा न जानाति न जानाति <laughs> एका महिला कानडी का, कन्नडभाषा न जानाति द्वितीया महिला तमिळ्भाषा तमिळ्भाषा न जानाति परन्तु महत्त्वपूर्णं किमस्ति अग्रिमे परन्तु उभे अपि संस्कृतं जानीवः जानीरानीवः जानी आसन् हा इत्युक्ते अत्र जानीवः कथमागच्छति जानीवः इत्युक्ते जानीमः द्विवचन् द्विवचन् आवाम् अहम् आवां वयं वयं कृतवन्तः खलु अहम् आवां वयं तथा अहं जानामि आवां जानीवः आवां जानीमः जानीमः अतः अतः आवयोः मैत्रीप्रवृद्धाकं फ्रेण्ड्स् किमर्थं तत्र संस्कृतभाष भाष संस्कृतप्रेमी भगिनी भगिनीद्वयं तत्र महिला आवयोः मैत्रीप्रवृद्धाः तत् मैत्रीम् अभवत् इति द्वयोः मध्ये इति स्पष्टमस्ति हा भगिनी स्पष्टमस्ति अस्तु अस्तु धन्यवाद भगिनी धन्यवादः अग्रिमे अवस्तु महोदय पठति वा अस्तु भगिनि वैष्णवीदेवालयस्य mm -hmm. दर्शनार्थम् अस्माकम् mm -hmm. mm -hmm. जम्मूनाम् जम्मूनगरं ज्यम, प्रति आगच्छत् mm -hmm. uh. आवर अत्र किम् अभवत् वैष्णवी इति देव्याः नाम अस्ति वैष्णवीदेवालयस्य इत्युक्ते टेम्पल् दर्शनार्थम् अस्माकं शकटं शकटमित्युक्ते ट्रेन् हा जम्मूनगरं प्रति अगच्छत् तत्र वैष्णवीदेव्याः स्थानमस्ति तत्र जम्मूनगरे तं प्रति शकटम् अगच्छत् अग्रिमे यदा, यदा यदा नगरं प्राप्तं यदा नगरं प्राप्तं तदा मार्गदर्शकेन सूचितम् <laughs> मन्दिरादिकं दृष्ट्वा यन्त्रे अत्र उपस्था उपस्थातव्यम् इत्युक्ते तत्र मार्गदर्शकेन इत्युक्ते तत्र टूर् गैड् इति अस्ति खलु सः के उक्तवान् श्वः सूचनां दत्तवान् का सूचना मन्दिरं वा अन्येषु स्थलेषु वा मन्दिरस्य प्राङ्गणम् एवं सर्वं दृष्ट्वा श्वः त्रिवादनाभ्यन्तरे इत्युक्ते बिफोर् थ्री ओ क्लाक् टुमोरो श्वः भवद्भिः अत्र उपस्थातव्यम् एव्रिबडि हेट्स् टुगेदर् बिफोर् त्री ओ क्लोक् अत्र उपस्थातव्यम् इति स्तूतना तत्र सूचना का सूचना श्वः भ्यन्तरे भवद्भिः अत्र उपस्थातव्यम् किमर्थम् अग्रिमे अग्रिमे किं वदति पठतु महोदय सार्धत्रिवादने रेल्यानस्य प्रस्थानम् इति इत्युक्ते सार्धत्रिवादन sir de hauf haaf yeah um um hmm 3 15 o'clock relliana of the of the train hmm um uh, sorry bagini sthana ah sthana means the depart che ah uh, सार्धत्रिवादने स सा अर्ध त्रि स अर्ध अर्धेण सहितम् इत्युक्ते हाफ् इत्युक्ते त्रिथर्टि त्रि टाइम डिपालयानस्य प्रस्थानम् अतः सर्वे त्रिवादनाभ्यन्तरे अत्र आगच्छन्तु इति सूचना अग्रिमेपि पठतु अनन्तरदिने अनन्तरदिने प्रातः एव mm -hmm. वयं सर्वे वयं mm -hmm. सर्वे देवालयं गतवन्तः इत्युक्ते प्रातःकाले हा वदतु गतवन्तः टेम्पल् दि टेम्पल् सत्यम् तत्र देवी दर्शनकाङ्क्षिणां महती पङ्क्तिः आसीत् इत्युक्ते ते आम, आम दर्शनकाङ्क्षिणाः काङ्क्षिणाम् इच्छुकानां महती पङ्क्तिः इत्युक्ते पङ्क्तिः पङ्क्तिः न जानामि लाङ् क्यू इति क्यू मेनि पीपल् महती पङ्क्तिः पङ्क्ति इत्युक्ते क्यूविष्णुहा देवीदर्शनं देवीदर्शनकाङ्क्षी देषां देवीदर्शनकाङ्क्षिणां महती पङ्क्तिः लाङ्क्ू all devotees were gathered there to see the darshan to see take to take the opportunity of devi darshanam all were there huh? hmm agree me kim abhavat vayam api vayam api tam panktim pravistavantaha hmm pravistavantaha that that uh, that word na पश्यन्तु एते सर्वे ये जनाः तत्र स्थानं प्राप्तवन्तः ते सर्वे अपि तत्र पङ्क्तिं प्रविष्टवन्तः इत्युक्ते दे अपि ते ते अपि तत्र पङ्क्तिं पङ्क्तिम् इत्युक्ते आवलि इति क्यू इति अहम् उक्तवती दे अपि दे आल्सो स्टुडि इन् क्यू प्रविष्टवन्तः ओके दे बिकेम् पार्ट् आफ़् देट् लाङ्ग् क्यू फैनली अग्रिमे काश्चन घण्टाः यावत् प्रतीक्षा कृता अत्र काश्चन घण्टाः इत्युक्ते महोदय समय इत्युक्ते बहुकाल यावत् ते तत्र प्रतीक्षां कृतवन्तः तत्र एव स्थितवन्तः दे देर् वैटिङ्ग् दर् प्रतीक्षा किमर्थं प्रतीक्षा वैटिङ्ग् किमर्थं देविदर्शनस्य कृते काश्चन घण्टाः यावत् प्रतीक्षा कृता एव्रिबडि वास् वैटिङ्ग् इन् अ क्यू फार् देविदर्शनम् dioesus stood there and then they waited for a long time anantam kim bhavat yanasya yanasya prastana samayaha astanna ha mm. mm hmm it took time hmm at the department deputy ha huh, that चर् टैम् वट् वास् दिपार्चर् टैम् इवन् सार्धत्रिवादने तत् समयः आगतः परन्तु तथापि किं दत्तमस्ति देवी दर्शनं न प्राप्तं दर्शनं न प्राप्तं दे कुडन् अप् टु देट् देवीस् प्लेस् इत्युक्ते तत्र देविदर्शनं ते न प्राप्तं तेन न प्राप्तं तेन देविदर्शनम् अत्र वयं वयम् इति अस्ति खलु तैः देवीदर्शनं न प्राप्तम् इति अतः वयम् तया प्रत्यागच्छन्तः ना, आस्म इत्युक्ते निराशतया निराशतया इत्युक्ते निराश इत्युक्ते किं भवितुम् अर्हति महोदय सत्यं योग्यं डिसपायण्टेड् दे आल् वेर् डिसप्टेड् ततः प्रत्यागच्छन्तः आस्म बेक् फ्रोम् देर् अत्र पश्यन्तु एकः प्रयोगः ततः ततः इत्युक्ते फ्रॉम, फ्रॉम डेर् हा अधुनापि वयं वदामः खलु अत्र नवरात्रोत्सव अश्विन्मासस्य शुक्लपक्षस्य प्रतिपदा आरम्भदिनं हा प्रतिपदातः नवमीपर्यन्तं नवरात्रोत्सवः प्रचलति इति क्तः फ्राम् ततः प्रत्यागच्छन्तः आस्म अस्तु दि कुडन् गेट् दर्शनं देवेर् डिसप्ण्टेड् देवेर् रिटर्निङ्ग् बेक् देट् इस् एषा स्थितिः अस्ति तत्र अधुना पश्यन्तु सर्वे धन्यवादः ओगस्तु महोदय धन्यवादः धन्यवादः बहु सम्यक् बहु सम्यक् अधुना अग्रिमे दिनम् अभवत् अधुना तु एतावत्पर्यन्तं स्थितिः का तैः दर्शनं न प्राप्तम् इत्युक्ते तत्र तत्र एका भगिनी अस्ति सा कन्नडभाषा कन्नडभाषिका महिला द्वितिया भगिनी सा तमिळ्भाषिका महिला परन्तु द्वयोः संस्कृते संस्कृतसम्भाषणं तत्र प्रचलति स्म अधुना पश्यामः किं भवति अस्तु आगच्छतु अत्र हा भारतमहोदय पठतु कृपया दौभाग्यं भा, दौर्भाग्यम् अस्माकं <laughs> दौर्भाग्यम् अस्माकम् इत्युक्ते बेड् लक्भाग्यम् अस्माकम् अतः <laughs> <हाँ>. देवीदर्शनं <laughs> न <ना> प्राप् <प्रात्त्तं। laughs> देवी <दर्शन्ना> प्राप्तं <laughs> देवीदर्शनं न प्राप्नोति आम् आम् वयम् पुण्यशालिनः न सत्यम् इत्युक्ते तेषां मनसि एते सर्वे विचाराः आगताः yeah. वयं पुण्यशालिनः न वयं भाग्यवन्तः न अस्माकं कृते देवदर्शनं न अभवत् इति दौर्भा दौर्भाग्यम् अस्माकम् एवं सर्वं चिन्तनं जातम् पुनः पुनः कथम् अस्माकम् अत्र आग् आगमनं भवेत् पुनः कथं पुनः पश्यन्तु ते सर्वे दक्षिणभारतीयजनाः अत्र वैष्णवदेवीमन्दिर तत्र जम्मूनगरे अस्ति उत्तरभारतप्रदेशे कथम् अस्माकम् अत्र आगमनं भवेत् पुनः पुनः तु न शक्यते वयं कथम् आगमिष्यामः न शक्यते इति चिन्तनम् mm. अग्रिमे इत्येवम् एवम् अहं मम सखी च संस्कृतेन उक्तवत्यो एट् mm. द टैम् uh, मम सखी uh, संस्कृतेन इत्युक्ते ये ये महिले स्तः महिलाद्वयं महिलाद्वयं तत्र ये महिले स्तः तत्र तयोः एतत् सर्वं सम्भाषणं जातं परन्तु संस्कृतभाषायाम् एव अस्माकं दौ दौर्भाग्यं कथा कथं वयम् अत्र पुनः एकवारम् आगमिष्यामः वयं पुण्यशीलनः न एवं सर्वं सर्वं संस्कृतेन सम्भाषणं प्रचलितम् आसीत् अधुना ना। अधुना अग्रिमे अपि पठतु तावता तावता अभिमुखम् आगतः सन्यासी आवयोः सम्भाषणं श्रुतवान् अत्र आवयोः इत्युक्ते मम आवयोः अस्मासु अत्र अस्मत् शब्दस्य षष्ठी द्विवचनं वा सप्तमी द्विवचनं द्वयोः मध्ये यत् सम्भाषणं संस्कृतभाषेण संस्कृतभाषायां प्रचलति तेन ्यासी महोदय तत्र आसीत् तेन एतत् सर्वं श्रुतवान् अनन्तरं yeah. सा पृष्टवान् किं पृष्टवान् पठतु uh, कुतः आगमनम् hmm. इत्यादिकं फ्राम् तत् कुतः इतः ततः अधुना अहम् उक्तवती प्रतिपा प्रतिपदातः तत् फ्राम् सत्यम् एवं सर्वं सः सन्न्यासी तत्र पृष्टवान् आसीत् कुतः आगमनम् अधुना पश्यन्तु किम् अभवत् दर्शनं प्राप्तं वा न वा पश्यामः धन्यवादः भारतमहोदय धन्यवादम् गीता बहिनी पठति वा वयं सः भगिनी न वयं वयं जन्मस्थलादिकम् उक्त्वा वयं जन्मस्थलादिकम् उक्त्वा देवीदर्शनस्य अपरा आपरा अपरा अप्राप्तिम् अप्राप्तिम् अपि निवेदिव निवेदिवत्यः निवेदितवत्यः निवेदितवत्यः वयं जन्मस्थादिकम् उक्त्वा ते टोल्ड् अबौट् एर् प्लेस् फ्रम् एप्ति अप्राप्ति सो दे डि नाट् गेट् अर्शयन् अत्र निवेदितवत्यः इत्युक्ते तत्र द्विवचनान्तरूपमस्ति खलु अतः निवेदितवत्यः निवेदितवती निवे निवेदितवत्यः एकनिमिषं तत् नदीनद्यो नद्यः न निवेदितवत्यो निवेदितवत्यः वयमस्ति न तत्र बहुवचनान्त एव वयम् पृष्ठं तेन वयं जन्मस्थलादिकम् उक्त्वा देवीदर्शनस्य अप्राप्तिम् अपि निवेदितवत्यः तत् uh, स्त्री uh, स्त्रीलिङ्गि बहुवचनान्तः एव रूपं सः हा अग्रिमे सः ऋषिकेशियः के, प्रसिद्धः कश्चन स्वामीवर्यः ऋषिकेश hmm. uh, hmm. वेरि फेमस् uh, स्वामी हा सत्यम् देवालयस्य अधिकारिभिः सह आसीत् सः अधिकारी वर्ते देवालयस्य अधिकारी ओ सः स्वामी इस् देवालयस्य अधिकारिभिः सह ओके इत्युक्ते तस्य देवालयस्य अधिकारिभिः सह आसीत् सः तस्य सह इत्युक्ते तेन सह अधिकारिजनाः अपि अधिकारिवास अधिकारिवादास हा अधिकारिभिः अत्र बहुवचनान्त अस्ति अधिकारिजनाः तेन सह आसीत् इति वक्तुं शक्नुमः अस्तु सन्न्यासी आसीत् अधिकारिजनाः अपि आसन् अग्रिमे किम् अभवत् अस्मान् उद्दिश्य सः अवदत् आगन् आगच्छन्तु मया सह कम् अलम्बितम् अहं दर्शनं करिष्यामि इति कारयिष्यामि कार कारयिष्यामि इति इत्युक्ते अधुना का स्थिति द्वयोः महिला महिलयोः संस्कृतेन संभाषणं श्रुत्वा सन्यासी तेषाम् पुरतः तयोः पुरतः आगतः प्रश्नान् पृष्टवन् पृष्टवान् अनन्तरम् तत्र अधिकारिजनाः अपि आसन् ते उक्तवन्तः आगच्छन्तु दर्शनं अहम् दर्शनं कारयिष्यामि इति सः उक्तवान् कारयिष्यामि निजन्तप्रयो उत्तमपुरुष एकवच अस्तु तावत् परम् अग्रिमे धन्यवादः भगिनि अग्रिमे जयन्ति भगिनी ततः ततः अस्मान् नीत्वा देविदर्शनं कारि कारितं कारितं तेन ततः तत तत ततः सन्न्यासी सन्न्यासीमहोदय कृपेण अस्माकं देवीदर्शनं कृतवन्तः सन्न्यासिना तेन मत्लं स्यासिना देविदर्शनं इत्युक्ते अत्रापि निजन्तभावं कार्यं अलभ्यम् अपि देवीदर्शनं संस्कृतभाषामहिम्ना एव लब्धम् अस्माभिः उत्तमं mm. द्वयोः भगिन्योः स्व स्वस्वभाष भाषे भाषेन सम्भाषणं कृत कृतवन्तः चेत् सन्न्यासी अपि न जानाति परन्तु संस्कृतम् एकम् उन्नतं संस्कृतभाषं भाषणेन द्वयो द्वयोमध्ये वार्तालापं कृतवन्तः इति कारणेन सन्न्यासी अपि जानाति एता महिलाः किं सम्भाषणं कृतवन्तः इति कारणेन देवीदर्शनमपि सुलभं अलभ्यम् अपि देवीदर्शनं संस्कृतभाषा महिम्ना तत्र महिम्ना इति एतस्मिन् शब्दे कः भावः भगिनी वदतु तृतीय एकवचनं वेन् अधुना भवती संस्कृतभाषामहिमा विषये वदतु कानिचन वाक्यानि महिमा संस्कृतभाषा जाना संस्कृतभाषा एका देवभाषा अस्ति संस्कृतभाषेण mm. वयं स्वयं वेदविषयाः पुराणविषयाः mm. उपनिषद्विषयाः अपि स्वयं जान् ज्ञातुं शक्यते mm. अनुष्ठानमपि कर्तुं शक्यते तस्य संस्कृतविषयस्य संस्कृतेन सम्भाषणं करोति चेत् अस्माकं बुद्धि अपि दीक्ष्णा भवति कुटुम्बे कुटुम्बे अपि सात्विकभावम् अपि प्रचलति निश्चयेन सत्यं अनेक hmm. अस् सन्ति वेणी किन्तु तदिति <laughs> um, अहं वक्तुं न शक् न न न परन्तु उत्तम उत्तमम् उत्तमम् उक्तवती पश्यन्तु सर्वे अत्र देवीमहात्म्यं <laughs> प्रचलति देवीमहिमा नवरात्रोत्सवे वयं सर्वे जानीमः नव नवदुर्गाणां महत्त्वं वर्तते तथैव संस्कृतभाषा महिमा अपि महती महिमा अस्ति अतः अहम् एतत् एषा कथा तस्याः चयनमहं कृतवती कथायाः hmm. माध्यमेन देवीदर्शनं संस्कृतेन सम्भाषणं वयं सर्वे कुर्मः इतोपि hmm. अध्ययनं कुर्मः अध्ययनशीलाः वयं सर्वे भवामः इति प्रार्थनया hmm. समापयामि oh सम्यक् अधुनातभाषायां महिमा <laughs> अपि अनेकानि अपर्याप्तम् अम्बिकापतिमहोदय अस्ति वा क्षम्यताहं न दृष्टवती अधुना वि वीणा भगिनी अन्य कोऽपि वक्तुम् इच्छति वा कथायाः विषये वीणाभगिनी गीताञ्जलिभगिनी भारतमहोदय अगोस्टुमहोदय अम्बिकापतिमहोदय स्वस्य विचाराः जानाति तत्र अस्माकं निश्चयः अहं संस्कृतेन वदामि अहं संस्कृतसम्भाषणं करोमि एवं योग्य अम्बिकापतिमहोदय वदतु कृते भगिनी अस्माकम् एकं प्रश्नः अस्ति आसम् आसन् स्म एतद्रूपस्य किञ्चित् वदति वा हा तत्र अस्य धातुः हा अस्य धातुः स्वधातु वयं वदामः खलु अस्ति स्तः सन्ति हा प्रथमपुरुष एकवचन अस्ति सन्ति अस्मि अस्मि अस्मि स्मः स्व अस्मि स्वः स्मः उत्तमपुरुष असि इति त्वमेव प्रत्यक्षं कर्ता असि त्वमेव केवलं धर्तासि एवं सर्वं गणपतिः सर्वशिष्य तत् अस्ति इति मध्यमपुरुष एकवचनं तत्त्व भूतकाले भूतकाले अस्य धातु आसीत् इति प्रथमपुरुष एकवचनान्तरूपम् आसम् इति प्रथमपुरुषबहुवचनान्तरूपं तथैव आसम् इति एक उत्तमपुरुष एकवचनान्तरूपम् आसम् यथा तत्र अस्मि इति भूत वर्तमानकाले वयं वदामः तत्र अत्र भूतकाले किं वदामः आसम् अतः तत्र आसम् अहम् आसम् सा उक्तवती महिला अहं गतवती आस इति यदा सः सः अस्ति चेत् सः गतवान् आसीत् इति भवति वा सा गतवती आसीत् इति भवति म अपि एतस्य धा धा धातव्यः वा अस् अस् इति दातु अस् हा हा ओके ओके ओके अस्तु आसं तत्र मकारप्रत्ययरूपेण आगच्छति तत्र अस्तु भगिनि कारयिष्यामि सः रूपः भगिनि अत्र पश्यतु यदा वयं वदामः चेत् अहम् अहं करोमि अहं करिष्यामि अहं करोमि वर्तमानकाले श्वः किमपि क चेत् वदामि अहं करिष्यामि अधुना तत्र पठनं पाठनं पठतिबलिस् भगिनि अधुना कारयिष्यामि अत्र किम् भविष्यत काले. भविष्यत भविष्यत्काल हा getting done from somebody else karesha yes. mm hmm hmm uh -huh. ah, uh -huh. nijanta rupani tujhe asma kam tatra asti maka pustake agri mein aagat chhati chabhavam aha nijanta rupam tata... okay bagini ashtu bagini from somebody yes yes the meaning i understood bagini but uh, form i didn't know okay thank you but yeah, yeah. uh, satyam tatra vyakaran drishti api patanam bhaveteva satyam satyam yugya okay. ha hmm? dhanyawad bagini धन्यवादाः अन्यकोपि वक्तुम् इच्छति वा अस्माकं देवी अद्य नवम नवमी तिथिः तत्र श्वः दश दश ए पर्वणः विजयादशमीपर्वणः सर्वेषां शुभाशयाः अस्माकं देवीमहात्म्यं वयं कथारूपेण अद्य चर्चितवन्तः सर्वेषां धन्यवादाः अम्बिकापतिमहोदयः भवान् वक्तुम् इच्छति वा नो चेत् सम्भाषणं कर्तुं लभ्यते सज्जनाय सज्जनाय सज्जनायाः सङ्ग्रहणम् अपि सत्सङ्गति अपि भवति सज्जनानां सङ्गति बहु सम्यक् उत्तमं उत्तमम् उत्तमम् <laughs> संस्कृतप्रेमिणजनाः सर्वे सज्जनाः एव <laughs> निश्चयेन <laughs> उत्तमं हा गीताञ्जलि भगिनी अस्तु इच्छति महात्म्यं पारायणं कृतवती भगिनी नवदिवसम् अस्तु एवं वा उत्तमं भगिमम् उत्तमं देवीमहात्म्यं हा भगिनि उत्तमं किम् अधुना समापयामः अग्रे वारम् अहं न योजितं भगिनी ऐ गोयिङ्ग् औट् आफ् स्टेशन् अस्तु अस्तु अस्तु अद्यापि केचन जनाः न आगतवन्तः अस्तु चिन्ता मास्तु रेकार्डिङ्ग् तत्र ध्वनिमुद्रणं सर्वे शृण्वन्तु अस्तु अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयति वा भगिनी पूर्णमिदम् पूर्णात् पूर्णमुदच्छदे पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सदे श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः सर्वेषां प्रणमामि पुनरेकवारं भवत्याः कृते और् सर्वेषां सर्वेषां कृते नवरात्रिशुभाशयाः धन्यवादः शुभरात्रिः धन्यवादा विजयादशमीपर्वुभाशया पुनर्मिलामः धन्यवादः धन्यवाद भगिनि धन्यवादः